ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं फोर्टी अगस्त्य उवाच श्रीकामकोष्ठपीठस्था महात्रिपुरसुन्दरी कङ्कं विलासमकरोत् कामाक्षीत्यभिविश्रुता श्रीकामाक्षीदि सा देवी महात्रिपुरसुन्दरी भूमण्डलस्थिता देवी किं करोति महेश्वरी ये तस्याश्चरिदं दिव्यं वद मे हयग्रीव उवाच अत्र स्थितापि सर्वेषां हृदयस्था खडोद्भव तत्तत्कर्मानुरूपं सा प्रदत्ते देहिना फल योकेमस विचेषिद किचिचित तस्या विद्यसौ ते वरास्तुत्रिपुराद्या श्रत इय महालक्ष्मी सर्जाडत्र पुरा करत्रयाणामावासं चक्रीणां तिसृणामपि ये कस्मादण्डतो जादावम्पिका पुरुषोत्तमौ श्रीविरिञ्जौ तदोऽन्यस्मादन्यस्माच्च गिराशिवौ इन्दिरां योजयामास मुकुन्ते पार्वत्या परमेश सरस्वताम ब्रह्मका सृष्टि कार्यूंकसा वासुदेव परी संचन ते महालक्ष्मी ध्यान दर्मदा सदा ब्रह्म लोके वैकुंठे कैलासे वसंत्यमी पार्वदी देवी पार्वतीदेव शिखरे शुभे महेशस्य विहरंदी महेश पिता नेत्रस्म्जग अन्धकारावृतमभूततेजस्कं समन्ततः ततश्च सकलालोकास्त्यक्रदेव पितृक्रिया इति कर्तव्यतामूढा नः प्रजानन्द किञ्चन तद्दृष्ट्वा भगवान् रुद्रः पार्वतीमिदमब्रवीद त्वया पापं कृतं देवि मम नेत्र पिधानतः ऋषयस्त्यक्ततपसो हदसन्ध्याश्च वैदिकाः सर्वञ्च वैदिकं कर्मत्वया नाशितमम्बिके तस्मात् पापस्य शान्त्यर्थं तपः सुदुष्करं गत्वा काशीं व्रतं तत्र कालं समाचर तश्चात् काञ्जीपुरं गत्वा कामाक्षीं तत्र द्रक्ष्यसि आराधयैतां नित्यां त्वं सर्वपापहरीं शिवां तुलसीमग्रदकृत्वा कम्बाकुले तपः कुरु इत्यादिश्य महादेवस्तत्रैवान्तरधीयत तथा कृतवधीशानी भर्तुराज्ञानुवर्तिनी चिरेण तपसा क्लिष्टा मनन्यहृदयां शिवाम् अग्रधकृदसान्निध्या कामाक्षीवाक्यमब्रवीद वत्से तपोभिरत्युग्रैरलं प्रीतास्मि सुव्रते उन्मील नयने पश्चात्वुस्लार्कायुसाश्याम शर्वाभरणूषिता किटहयूरखगाुकोदंडपचाणल सकरा किरीडमुकुटोल्लासिचन्द्ररेखाविभूषणं विधादृहरिरुद्रेश सदाशिवपदप्रदां सगुणं ब्रह्मदामाहुरनुत्तरपदाभिथां प्रपञ्चद्वयनिर्माणकारिणीं तां पराम्बिकाम् ताम ृष्वाधमहाराज महानंदपरिप्लुता पुलकाचिदर्वांगी हर्षण्दुलोचना चंडिका मंगलाध्य सहसा स्वखी जन प्रणिपतज सांगं कदक्षिणा बध्वाञ्जलिपुटाभूयः प्रणदास्वैक्यरूपिणी तामाह कृपया वेक्ष्य महात्रिपुरः सुन्दरी बाहुभ्यां सस्नेहमिदमब्रवीद वत्सलभस्वभर्तारं रुद्रं स्वमनसेप्सितम् लोके त्वमपि रक्षार्थं ममाज्ञामनुवर्तय अहं त्वमिति को भेदस्त्वमेवाहं न संशयः किं पापं तव कल्याणि त्वं हि पापनिकृन्दनी आमनन्दिः योगीन्द्रास्त्वामेव ब्रह्मरूपिणीम् लीला लीलामात्रमिदं वत्से परलोकविडम्बनम् इत्यूचिषीं महाराज्ञीमम्बिकां सर्वमङ्गला भक्त्या प्रणम्य पश्यन्ती परां प्रीतिमुपाययौ स्तुवत्यामेव पार्वत्यां तदानीमेव सा प्रविष्टा हृदयं तस्याः प्रहृष्टाया महामुने अध विस्मयमापन्ना चिन्तयन्ती मुहुर्मुहुः स्वप्न किमेष दृष्टो वा मया वा भ्रमः इत्थं विमृश्य परिदः प्रेरयामास जयां च विजयां पश्चात्सख्यावालोक्य सस्मिते प्रसन्नवदना साधुप्रणते वदति स्म सा एतावन्दमलं कालं कुत्र यादे युवां प्रिये मया दृष्टां दुःखामाक्षीं युवां चेत् किमपश्यतम् सख्यौ तो तज श्रुवा प्रकर्षोलोचने पुष्पा पूजनाहाग्रे सोचु सत्यमेधुना धृष्ट हावाभ्या परा न स्वनों न भ्रमो वापी साक्षात् हृदय गदा इत्युक्त्वा पार्श्वयोस्तस्य निशन्ने विनयनते ये काम्रमूले भगवान् भवानी विरहार्तिमान् गौरीसम्प्राप्तये दध्यौ कामाक्षीं नियतेन्द्रियः तत्रापि कृतसान्निध्या श्रीविद्यादेवता परा अचष्टकृपया तुष्टाध्यायन्तं निश्चलं शिवम् अलं ध्यानेन कन्दर्पदर्पघ्नत्वं ममाज्ञयाम् अङ्गीकुरुष्व कन्दर्पं भूयो मच्छासने स्थितं एकाम्रसंज्ञे मत्पीडेत्विहैव निवसन् सदा त्वमेवागत्यमत्प्रीत्यै संनिधौ मम सुव्रदा गौरीमनुगृहाणत्वं कम्पानीरनिवासिनीम् तापद्वयं जहीख्याश्युयोगजं तद्वियोगजं युत्युक्त्वान्तर्दधे तस्य हृदये परमारमा शिवो व्युद्धाय सहसा धीरसंहृष्टमानसः तस्य अनुग्रहं लब्ध्वा सर्वदेव निशेवितः हृदि ध्यायंतामेव महात्रिपुरसुन्दरीं यद्विला सात् समुत्पन्नं लयं यादि च या जगच्चराचरं चैतत्प्रपञ्चद्वितयात्मकं भूषयन्तीं शिवां कम्पामनुकम्पार्द्रमानसाम् अङ्गीकृत्य तदा गौरीवैवाहिकविधानतः आदाय वृषमारुह्य कैलासशिखरं व्ययौ पुनरन्यं महप्राज्ञं समा कर्णय कुम्भज आदिलक्ष्म्याः प्रभावं तु कथयामि तवानख सभायां ब्रह्मणो गत्वा समासे दुस्त्रिमूर्तयः दिक्पालाश्च सुराः सर्वे शनकाद्याश्च योगिनः देवर्षयो नारदाद्य वसिष्ठाद्याश्च तापसाः ते सर्वे सहितास्तत्र ब्रह्मणश्च कपर्दिनः द्वयोः पञ्चमुखत्वेन भेदं न विविदुस्तदा अन्योन्यं पृष्टवन्तस्ते ब्रह्मा क कश्चशङ्करः तेषां संवदता मध्ये क्षिप्रमन्तर्हितः शिवः तदा पञ्चमुखो ब्रह्म सिधो नारायणस्तयोः उभयोरपि संवादस्त्वहं ब्रह्मेत्यजायत अज्ञमन्नाभिकमलातस्त्वं यन्ममात्मजः सृष्टिकर्ता त्वहं ब्रह्मा नाम सा धर्म्यतस्तथा त्वं च रुद्रश्च मे पुत्रौ सृष्टिकर्तुरुभौयुवाम् इति मायामोहितयोरुभयोरन्तरे तदा तयोश्च स्वस्य माहात्म्यमहं ब्रह्मेदि दर्शयन् प्रादुरासिन्महाज्यो दिस्तम्भरूपो महेश्वरः ज्ञात्वाैनं महेशानं विष्णुस्तूष्णीं ततस्थितः पञ्चवक्त्रस्ततो ब्रह्माह्यवमत्यैव मास्थितः ब्रह्मणः शिरसामूर्ध्वं ज्योतिश्चक्रमभूत्पुरः तन्मध्ये संस्थितो देवप्रादुरासो मया सह ऊर्ध्वमैक्षधभूयस्तमवमत्य वचो ब्रवीद तन्निशम्यभृशं क्रोधमवापत्रिपुरान्तकः विष्णुमेवं तदा लोक्यक्रोधेनैव विकारतः तयोरेव समुत्पन्नो भैरवक्रोधसंयुतः मूर्धानमेकं चिच्छेद नखेनैव तदा विधेहे आहेदि तत्र सर्वेपि क्रन्दन्तश्च पलायिताः अधब्रह्मकपालं तु नखलग्नं स भैरवः तथापि न मुमोचतं तद्ब्रह्महत्या मुक्रियार्थं चचार धरणीतले पुण्यक्षेत्राणि सर्वाणि गङ्गाद्याश्च महानदीः नचताभिर्विमुक्तो भूत्कपाली ब्रह्महत्यया विषण्णवदनो दीनो निःस्रीक इव चिरेण प्राप्तवान् काञ्चीं ब्रह्मणा पूर्वमोषिदाम् तत्र भिक्षामडन्नित्यं सेवमानःपराश्रियं पञ्चतीर्थे प्रतिदिनं स्नात्वा भूलक्षणाङ्गिते कञ्चित्कालमुवासाधप्रभ्रान्त इव बिल्वलः काञ्जीक्षेत्रनिवासेन क्रमेण प्रयताशयः निर्धूतनिखिलातङ्गश्रीदेवीं मनसावान् उत्तरे सेवितुं लक्ष्म्या वासुदेवेन दक्षिणे श्रीकामकोष्ठमागत्य पुरस्तात्तस्य संस्थितः आदिलक्ष्मी पदध्यानमादता न यदात्मवान् यथा दीपोन्निवातस्थो निस्तरङ्गो यथाम्बुधिः तथान्दर्वा युरोधेन न मनवचिन्न तैलतारावदच्छिन्नमनवच्छिन्नभैरवः वितेने शैलतनया नाथश्रीध्यानसन्दतिं न ना ब्रह्मानैव विष्णोर्वा न सिद्धकपिलोऽपि वा नान्ये च सनकाध्याये मुनयो वा शुकादयः तया समाधिनिष्ठायां न समर्था कथञ्चन अध श्रीभावयोगेन श्रीभावं प्राप्तवाञ्छिवः ततः प्रसन्ना श्रीदेवी प्रभामण्डलवर्तिनी अर्धरात्रे पुरस्थित्वा वाचं प्रोवाच वाङ्मयी श्रीकण्ठसर्वपापघ्न किं पापं तव विद्यते मद्रूपस्त्वं कथं देह सेयं लोकविडम्बना स्वो भूदे ब्रह्महत्यायाः क्षणान्मुक्तो भविष्यसि इत्युक्त्वा दर्दधे तत्र महासिंहासनेश्वरी भैरवोऽपि प्रहृष्टात्मा कृतार्थश्रीविलोकनाद विनीयतं निशेषं श्रीध्यानैकपरायणः प्रातःपञ्चमहातीर्थे स्नात्वा सन्ध्यामुपास्य च पुनः पुनर्धूनुदे स्म कपालकं तथापि तत्तु नास्रं सत्सनिर्वेदं परङ्गदः स्वप्नक किमेष मायावा मानसभ्रान्तिरेव वा, वा मुहुरेवं विचिन्त्येष्य शोकव्याकुलमानसः स्वयमेव निगृह्याथ शोकं धीराग्रणीशिवः तुलसीमण्डलं नत्वा पूजयित्वा पुरस्थितः निगृहीतेन्द्रियग्रामसमाधिस्थो भवत्पुनः याममात्रे गदेवि पुनः सान्निध्यमागता अलं समाधिना शम्भो निमज्जात्र सरोवरे इत्यादिश्य तिरोधत्त सोपि चिन्तामुपागमत इयं च माया स्वप्नो वा किं कर्तव्यं मया धो भूदे ब्रह्महत्यायाः क्षणान्मुक्तो भविष्यसि इत्युक्तं श्रीपरादेव्या यामाधीदमिदं दिनम् एवं सर्वं च मिथ्यैवेत्यधिकं चिन्तया भगवान्व्योमौ वाण्या निमज्जातिगर्जितम् श्रुत्वा शङ्कां समुत्सृज्य तत्त्वं निश्चित्य शङ्करः निममज्जसरस्यां तु गङ्गायां पुनरुद्धितः समालोक्य किमेतदिति स मुहूर्तं स्थितस्तूष्णीम् ना कपालकः नकलीनकपालकः ललाडन्तपमुद्वीक्ष्य तरण्यं तरुणोन्दुभृद भिक्षार्थं नगरीमेनां प्रविवेश पशि शिवः गृहाणि कानिचित् गत्वा प्रतोल्यां पर्यडन् भवः सोऽपश्यदग्रदः ीं श्रीदेवताकृतिं भिक्षां ज्योतिर्मयीं तस्मै दत्त्वा क्षिप्रं तिरोदथे क्षणाद्ब्रह्मकपालं तत्प्रच्युतं तन्न काग्रतः कामाक्षी शीलमुत्तमं प्रसन्नवदनां भोजो बहु मेने मुहुः परं पुरी काञ्जीपुरी पुण्यानदीकम्बानदी परा देवता सैव कामाक्षीत्या सम्भावनापुरः युद्धं देवी प्रभावेण विमुक्तः सङ्कटाधरः स्वस्थस्वस्थानमकमच्छ्वाखमानः परां श्रियम् पुनरन्यत्प्रवक्ष्यामि विलासं शृणु कुम्भज प्रभावं श्रीमहादेव्या कामदं शृण्वदां सदा अयोध्याधिपति नाम्ना दशरथो नृपः सन्तानरहितो तिष्ठद्बहुकालं शुचाकुलः रहस्याहूयमधिमान्वसिष्ठम् स्वपुरोहितम् उवाचाचारसंशुद्ध सर्वशास्त्रार्थवेदिनम् श्रीनाथभगवद्दिदा कालानाधिगतसुतः सन्ततेर्मम सन्तापसन्ततं वर्धतेतरां किं संतान यदि सन्तानसम्पत्स्यात्तन्निवेदय वसिष्ठ उवाच मम वंशमहाराजरहस्यं कथयामि ते अयोध्या मधुरामाया काशी काञ्ची ह्यवन्तिका यदा पुण्यतमा प्रोक्ताः पुरीणामुत्तमोत्तमाः नई दसृशी का जिदेवता ये न मे वर्चयन्देदेवताृप ब्रह्म विष्णु महेशाद्यासत्री का सर्वदा सदा नारिकेलफला फल सही कदलीफल मध्वाज्यशर्कराप्राज्यैर्महापायसराशिभिः सिद्धद्रव्यविशेषैश्च पूजये त्रिपुराम्बिकाम् अभीष्टमचिरेणैव सम्प्रदास्यति सैवनः इत्युक्तवन्दमभ्यर्च्य गुरुमिष्ठैरुपायनैः स्वाङ्गजप्राप्तये भूयो विससर्ज वीशा विशाम्पदिः ततो गुरुक्ररीत्यैव ललितां परमेश्वरीम् अर्चया राजेन्द्रो भक्र्या परमयायुतः एवं प्रतिदिनं पूजां विधाय प्रीतमानसः अयोध्या देवता धा तत्र सङ्गतः अर्धरात्रे व्यधिधेद निभृतोल्लासदी के किंचिद्राल्सुतरां का पाशाकुशनुर्बाणपरिष्कृतचतुर्भुजा सर्वशृारवेशाढ़ूषिता स्थि वाच मुचे म मन्दमिन्दुमदीसुतम् अस्ति पङ्क्तिरथश्रीमन्पुत्रभाग्यं तवानख विश्वासपादकर्माणि सन्धिपूर्वकृतानि ते तादृशां कर्मणां शान्त्यै गत्वा काञ्चीपुरं वरं स्नात्वा कम्पासरस्यां च तत्र मां पश्य पावनीं मध्ये काञ्जीपुरस्य त्वं कन्दराकाशमध्यगं कामकोष्ठं विपाप्मापि सप्तद्वार बिलान्वितं साम्राज्यसूचकं पुंसां त्रयाणामपि सिद्धिदं प्राङ्मुखी तत्र वर्तेऽहं महा सिंहासनेश्वरी महालक्ष्मीस्वरूपेण द्विभुजा पद्मधारिणी चक्रेश्वरी महाराज्ञी ह्यदृश्या स्तूलचक्षुषां ममाक्षिजा महागौरी वर्तदे मम दक्षिणे सौन्दर्यसारसीमा सा सर्वाभरणभूषिता मया च कल्पिता वा सा कुवासना कुबुद्धिश्च कुदर्क निचयश्चयः कुदेहश्च कुभावश्च नास्तिकत्वं लयं व्रजेद कुरुष्व मे महाभूजां सितां मध्वाज्य पायसैः विविधैर्भक्ष्यभोज्यैश्च पदार्थैषड्रसान्वितैः तत्रैव सुप्रसन्नासं पूरयिष्यामि देवरम् उपदिश्येदि सम्राज्ञी दिव्यमूर्तिस्थिरोदधे राजापि सहसोद्धाय किमेददिति देवी मुद्बोध्य कौसल्यां शुभलक्षणलक्षितां तस्यै तद्रात्रिवृत्तान्तं कथयामास सादरं तत्समाकर्ण्य सा देवी सन्तोषमभजत्तदा प्राप्तहर्षो नृपः प्रातस्तया दयितया सह अनेकसचिवोपेद स्नात्वा कम्पातरङ्गिण्यां दृष्ट्वा देवीं च पावनीं पञ्चतीर्थे तदस्नात्वा देव्या कौसल्यया नृपः गोभुवस्त्र हिरण्याद्यैस्तत्तीर्थक्षेत्रवासिनः प्रीणयित्वा सपत्नीकस्तथा तद्भक्तिपूजकान् अधालयं समाविश्य महाभक्त्या नृपोत्तमः महा। प्रदक्षिणत्रयं कृत्वा विनयेन समन्वितः तदसन्निधिमागत्य देव्या कौसल्यया सह श्रीकामकोष्ठनिलयं महात्रिपुरसुन्दरीं त्रिमूर्तिजननीमम्बां दृष्ट्वा श्रीचक्ररूपिणीं प्रणिपत्यु साष्टाङ्गं भार्यया सह भक्त्रिमान् स्वपुरे त्रैपुरे धाम्नि पुरेक्ष्वादु प्रवर्तिते दुर्वासा स शिष्येण पूजार्थं पूर्वकल्पिते दासी दासध्वजारोहगृहोत्सवसमन्विते तत्र स्वगुरुणोक्तं च कृत्वा स्वात्मार्थपूजनं रात्रौ स्वप्ने द्वियद्रूपं दृष्टवान् स्वपुरे महः तदेवात्राभि संदध्यौ सन्निधौ राजसप्तमः चिरं ध्यात्वा महाराजसुवासांसि बहूनि च दिव्यान्याय तनान्यस्यै दत्त्वा स्तोत्रं चकारः पादाग्रलम्बि परमाभरणाभिरामे मञ्जीरत्नरुचिमञ्जुलपादपद्मे पीताम्बरस्फुरिदपेशलहेमकाञ्ची केयूरकङ्कण परिष्कृतबाहुवल्लि पुण्ड्रेषु चापविलः सन्मृदुवामपाणे रत्नोर्मिका सुमशराञ्छिदक्षहस्ते विलासि वलक्षहारी, वक्ोजमंडल विलासीवक्षि काश्यांगुशांगदसद्भुजशोतांगी वक्त विजिदशारदचंद्रबिबेताडंगनकमंडित गठभागे वाक सरसिजम सु दधाने कारुण्य निर्चरपांगयुधे महेशि मणिक्यसूत्रमणिबासुरकंबुकचंद्रशकोज्वलिताल काढ़ मंदस्मितफुणशालिनी मंजुना से नेत्रश्रियाल सरोजपत्रे सुभ्रूलदे सुवदने सुललाडचित्रे योगीन्द्रमानस सरोजनिवासहंसि रत्नानुबद्धतपनीयमहाकिरीडे सर्वाङ्गसुन्दरि समस्तसुरेन्द्रवन्द्ये काङ्क्षानुरूपवरदे करुणार्द्रचित्ते साम्राज्य चक्रनाधे, संपदिमा चक्रनाथे इंद्रादिदेवपरी सेवित पदप्दनेंहासनेरे मयि सन्निद्यादिस् सूपाल बिर्नर्गत्य भक्त तस्यास्तु दक्षिणे भागे महागौरी ददर्श प्रणम्य दण्डवद्भूमौ कृत्वा चास्यास्तुतिं पुनः त्यक्त्वा चास्यै महार्हाणि वासांसि विविधानि च अमूल्यानि महार्हाणि भूषणानि महान्ति च ततः प्रदक्षिणीकृत्य निर्गत्य सहभार्यया स्व गुरुक्तविधाने नमः पूजां विधाय च तामेव चिन्तयस्तत्र सप्तरात्रमुवासः अष्टमे दिवसे देवीं नत्वा भक्त्या विलोकयन् अम्बाभीष्टं प्रदेहीति प्रार्थयामास चेदशा सुप्रसन्नाय कामाक्षी सान्तरीक्ष गिरवद भविष्यन्ति मदं शास्ते चत्वारस् या नृप इत्युदीरिदमाकर्ण्यप्रमोदविकसन्मुखः श्रियं प्रणम्य साष्टाङ्कमनन्यशरणः पराम् आमन्त्र्य मनसैवाम्बां शस्त्रीकसहमन्त्रिभिः अयोध्यां नगरीं प्रापदिन्दुमत्यास्तु नन्दनः एवं प्रभाव कामाक्षी सर्वलोकहिदैषिणी सर्वेषामपि भक्तानां काङ्क्षितं पूरयत्यलं येनां लोकेषु बहव कामाक्षीं परदेवताम् उपास्य विधिवद्भक्रिया प्राप्ता कामानशेषतः अद्यापि प्राप्नुवन्त्येव भक्त्रिमन्दःफलं अनेकेच च भविष्यन्ति कामाक्ष्यात् करुणादृशः माहात्म्यमस्या श्रीदेव्या को वा वर्णयितुं क्षमः नाहं न ना शम्भुर्न ब्रह्मा न विष्णु किमुदा परे इति ते कथितं किञ्चित् कामाक्ष्या शीलमुज्ज्वलं शृण्वतां पठतां चापि सर्वपापहरं स्मृतम् इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयर्ग्रीवागस्य संवादे ललितोपाख्याने चत्वारिंशोऽध्यायः ओम्